गणेशपुराणम् उपासनाखण्डम् अध्यायं सेवेण्टिसिक्स् दूता ऊचुः गौण्डे दुविषये गौडनगरे भूत्पुरा द्विजः तपस्वी ज्ञानवान्प्राज्ञो देवब्राह्मणपूजकः तस्य पुत्रोऽयमजनी जननी चास्य शाकिनी तस्य पत्नी तु सावित्री सावित्रीव पतिव्रता एकपुत्रस्नेहवशादलङ्कारैरलङ्कृतः अत्यन्तसुन्दरतरो रति भर्तेवशोभदे तन्मादापितरौ तस्य वियोगं नेच्छदः क्षणं स तु यौवनमापन्नो निजभार्यां विहायदां परदाररदो नित्यं परनिन्दापरायणः अभवत्पापनिष्ठश्च पितृवाक्यावमर्दनः एकदा नगरे तस्मिन् नरविमोहिनी आगदा तद्गदमना यक्रे सौ शृणुष्व तद् स्वालङ्कारान् पेडिकायां निष्कास्यास्तापयद्बलाद् मादापित्रोत्समक्षं च पश्चाच्चौर्यं पुनश्च तान् वेश्यायै प्रतिपाद्यैतांश्चिक्रीड सुभृशं तया इत्त्वेन्द्रियार्थान् सकलान् तदेक तदेकनिष्ठसञ्जातो योगी ब्रह्मपरो यथा कामाग्निविह्वलश्चासीत् क्षीभो मद्यबलाद्यथा पितादु खेदसम्पन्नः क्षुदृङ्गभ्यां परिवर्जितः विलोकयामासुतं नगरे प्रतिमन्दिरम् अलब्धदर्शनस्तस्य श्वासोच्छ्वासपरायणः निषीधे स्वप्रियां प्राह बुधपुत्रो गधक्वनु विना तेन वृथा गेहं विना दीपं यधानिः विना विनापत्यं पत्यं यथा बला कदानुदर्शनं तस्य भविता प्राणरक्षकं शाकिन्युवाच क्षुग्धा तृषा परिश्रान्ता चिन्ताशोकसमन्विता तिष्ठा मिना धनो जाने क्व गधप्रियबालकः यदि मे दर्शनं तस्य स्याज्जीवामि न चान्यथा पुनश्च चाल दूर्वस यष्टिमादायमुष्टिना यं यं पश्यति मार्गेऽस्मिंस्तं तं पृच्छति चात्मजं यदा श्रान्तः क्षुदा क्रान्तस्तदा भ्रान्तश्च सोऽभवद अनि अनिवृद्धो महाभीमो नाम्ना भीमोऽवर्णजः स तेन पृष्ठस्तनयं तेनाप्युक्तं परं स्फुटं भीम उवाच वेश्या गृहेते तनयो बुधोऽसौ बुधः सुखं क्रोडधि कामशक्तः कस्यात्मजो का जननी पिदावा वृथैव खेदं कुरुषे द्विजेन्द्र दूर्व उवाच कथं मम सुधो जादो वेश्यायां निरतो बुधः तस्या गृहं जगामाशु दृष्टवांस्तत्र तं सुधम् उन्मत्तं मदिरासक्तं नयनं मदविह्वलं पिता दधारतं हस्ते रुषाशिक्षापयत्सुतं त्वत्थक्कण्टकवृक्षोऽयं पाषाणो वा मदोधिकः कथं न त्यजसे प्राणान् कि स्यात्तैर्जीवितं खल ब्रह्मोवाच पितृवाक्यं समाकर्ण्य रोषाविष्टो बुधः सुतः तलप्रहारं तण्डेस्य दत्तवान् पितुरेवसः पुक्तवान् कृमिक्रीडादिसाधारणमुखे कथं कृतवानसि विघ्नं क्रीडाकाले नराधम अकस्मात् काकस्य सकृतपतिदमयि वा कथं पुनर्ल प्रहारेण प्राणांस्तस्य गृहीतवान् पित्राप्राणेश्युत्यक्रेषु हरेश्वरे दिशोऽ वदद ननन्तसुतपादे बद्ध्वा तं दूरदोऽक्षिपद मधु पीत्वा पुनारे प्रादर्जगामस्वगृहं ददर्श जननीचदम् आलिलिङ्गसुदं हर्षात् स्नेहस्नुदपयोधरा बभानक्व गदा चासि क्व स्थितः कृतं त्वया वद मे विस्तराद्वत्स पिधा ते दुःखितो अहञ्चापि निराहारा निर्जला निषिजाग्रती प्रदीक्षमाना वत्स त्वाम् इदान्वेष्टुं गदश्चिराद गच्छत्वम् पितरं द्रष्टुमित्युवाच पुनः पुनः तया ज्ञमिति क्रोधा चुष्ककाष्ठेन ताडयामास शिरसि पदिता धरातले निश्चेदनं परिज्ञाय बद्ध्वा पाशे स्वयं वेश्या गृहं गत्वा चिक्रीडभृशहर्षितः ददहुस्ते जनास्सन्दो दम्पती स्वस्व काष्ठतः न शास्ति राजादण्ड्यं तं ब्राह्मणत्वाद्विजाधमं पुनर्गृहागतं तं तु पत्नीवाक्यं शनैर्जगौ सावित्र्युवाच प्राणनाद वदाम्येकं तच्छृणुष्व महामदे अधिख्यातेदि विमले वर्णे जन्म भवादृशाम् आचारश्चान्यथा दुष्टस्त्यक्तव्यस्य विवेकतः इह लोके दुःसत्कार्यं येन सौख्यं परे भवेत् पूर्वे वयसि तत्कार्यं वार्धके संवार्धके भवेत् अष्टमासेषु तत्कुर्याद्येन वर्षात् सुशम्भवेद् दिवसे कर्म तत्कार्यं येन रात्रौ सुखं भवेत् पितुः पृतत्वाद्राजापि ब्राह्मणत्वात् क्षमत्यसौ सर्वावयवसम्पूर्णाम् सुन्दरामनुसारिणीं त्यक्वा मां धर्मपत्नीं त्वं वेश्यायां निरधकथं लोको निन्दति सर्वत्र भयां न वदत्यसौ स मां जनप्रतिब्रूदे पदिस्थे कीदृशशुभे लज्जयाधोमुखी प्राणां स्त्यक्रमिहे तदैव च यथेष्टं चेन्मया सार्धं रमदेहर्निशम्पदे नकोपि कोऽपि किञ्चिद् ब्रूया त्वां दोषो वा न हिदं चेत् कुरु त्यक्त्वा तां स्वविवेकदः अज्ञानाद्वा प्रमादाद्वा कृतं कर्म त्यजेद्बुधः इदं कृतं ममैव स्यादिष्टं नैव कृतं यदि अनिष्टं सर्वधा मे स्यात् तन्न कार्यं अन था कुरस इह लोको विद्धो यिया मोषा विष्टो महाक्रूरो जगाद प्रज्वलनिव बुध उवाच निर्लज्जे निष्टुरे प्रौे दुष्टे रुष्टे मयि स्फुटं गमिष्यासि गतिं त्वां त्वं यधातौ पितरौ गदौ सावित्र्युवाच येन पित्रोर्नमर्यादा शिक्षित्रोश्च स्वतन्त्रयोः रक्षिता तत् विपरीताम् समान्त्रादा कथं भवेद भर्तृहस्तान्मृधिश्रेयः परत्रेभज सा तु स्त्रियः ब्रह्मो वाच एवं ब्रुवन्द्यां पत्न्यां सधं मिल्लं सहसा गृहीत काष्ठैर्लोष्ठैर्मुष्टिभिश्च पाषाणैश्च मताडयत सारामं भर्तृरूपेण सस्मार पूर्वपुण्यतः प्राणांस्तजसहसा भिन्ना मर्मसुतेनः स्वर्गं गत्वा दिव्यदेह भुभुजे परमं सुखं आकृष्य चरणे तां स चिक्षेपदूरदो दूरदो निशी हर्षयुतो रे मे वेश्या समन्वितः त्वदर्थं नाशिदा सर्वे बुधस्तामिदिशोऽब्रवीद तदो बहुगदे काले बुधो बुधोगात्कालभेर्गृहम् तस्मिन् स्नातुं गदे दुष्टो भार्यां तस्याग्रहीत् पच्ये <laughs> अत्यन्तं सुन्दरतरामालिलिङ्गचुचुम्बच निःशङ्गं शयने नीत्वा ममर्दकुजमण्डलीं रेमेतया यथेष्टं सततः सातं शशापः सुलभोवाच कथं नाम कृतं दुष्टं पितृभ्यां सुलभेति मे अहं ते सुलभा जाता दुष्टबुद्धे नराधमा स्नातुं गदे भर्तरि मे कालभौ मुनिपुङ्गवे बलात्कारो मयि दुष्टकुष्ठी भविष्यसि जन्मान्तरे नामापि न ना गृह्णीया जनः क्वचिद् ब्रह्मोवाच ततोभिदोयवेश्या गृहमेव बुधः पुनः रेमे तया सुरां पीत्वा न किञ्चिदपि पी चिन्तयन् एवं दुष्टानि कर्माणि वक्तव्यानि कथं मया पुण्यक्षयो भवेत्तस्य परदोषं य ईरयेत् स कालान्निधनं प्राप्तो दूदैर्नीदो यमालयं यमेनोक्तं किमानीदो नीयतां नरकेष्वयं यमवाक्यं समाकर्ण्य दुधा निन्युस्तदैवतम् शिक्षिपुर्नरके तावद्यावदाभूदसम्प्लवम् भुक्तभोगसवैश्यस्य गृहे जन्म समाप्तवान् ऋषिपत्न्याः सशापेन पुष्टिजातो भृशं तदा पितृहा मातृहा स्त्रीः मध्यपि गुरुतल्पगः तस्य संस्पर्शनादेव सचैलं स्नानमाचरेत् नामाप्येतस्य न ग्राह्य महादोषकरं यतः एतादृशोऽयं दुष्टात्मा यदा त्यक्तम् विमानं यास्यदे चोर्ध्वं नूनं नास्त्यत्र संशयः ब्रह्मोवाच श्रुत्वेत्थं वचनं तेषां दूतानां भृशकम्पितः शूरसेन उवाचैतान्नमया ज्ञायि दुष्कृतं पुनरुद्धाय राजासौ प्रणनाम भृशातुरः प्राह तान् देवदूतान् स कृपां कृत्वा वदन्तु मे उपायमस्य दुष्टस्य सर्वदोषापनुत्तये दूदाऊचुः उत्तिष्ठोत्तिष्ठनृपदे भ्रूमो दोषापनुत्तये उपायं राजशार्दूल शृणुष्वैकमना भव गणेशस्य भवेन्नाम यक्यादं चतुरक्षरं जप तत्कर्णरन्ध्रेस्य सर्वदोषक्षयो भवेद् उदये दिननाथस्य यथा सर्वतमः क्षयः यदो नामैव जप्यताम् ब्रह्मोवाच शूरसेनोदूतवाक्याज्जयपूर्वं जजापः त्रिवारं वैश्यकर्णेदु नाम यच्चदुरक्षरं। गजाननेधिश्रुत्वैव दिव्यदेहो भवच्च सः भासयं तेजसा सर्वमरुणो भुवनं यथा सर्वपापक्षये जादे नामश्रवणमात्रतः दीपयन् सर्वदिग्देशान् विमानं चाध्यरोहत तद्विमानं क्षणाद्दूतैः सर्वलोकसमन्वितम् नीदं वैनायकं धाम विघ्नराज्यस्य शासनाद इति सर्वं समाख्यादं यद्यत्पृष्ठं त्वया नख महापुण्यं च सङ्कष्ट चतुर्थीव्रतमुत्तमं धर्म्यं यशस्यमायुष्यं श्रवणात् सर्वसिद्धितं सर्वपीडाप्रशमनं सर्वं विघ्नविनाशनं दूर्वानामप्रभावश्च किमन्यच्छ्रोतुमिच्छसि यदि श्रीगणेशपुराणे उपासनाखण्डे षट्सप्ततितमोऽध्यायः ओ